तं हत्वा विनिवर्तिष्येकं स केशिनिषूदनम् अहत्वा न निवर्तिष्येत्सत्येनायुधमालभे क्वासौ क्वासाविति पुनस्तत्र तत्र प्रधावति मया किल रणे योद्धुं काङ्क्षमाणः अद्यतम् पापकर्माणं क्षुद्रं विश्वासघातिनम् शिशुपालवधामर्षाद्गमयिष्येयमक्षयम् मम पापस्वभावेन भ्राता येन निपातितः शिशुपालो महीपालस्तं वधिष्ये महीपते भ्राता बालश्च राजा च न च सङ्ग्राममूर्धनी प्रमत्तश्च हतो वीरस्तम्भनिष्ये जनार्दनम् एवमादिमहाराज विलप्य दिवमास्थितः कामगेन स शौभेन क्षिप्त्वा मश्रौषमहम् गत्वा यथा वृत्तः स दुर्मतिः मयि कौरव्यदुष्टात्मार्तिकावतको आनर्तेषु विमर्दं च क्षेपं चात्मनि कौरव प्रवृद्धमवलेपम् च तस्य दुष्कृतकर्मणः ततः प्रतस्थे पृथिवीपते समया सागरावर्ते दृष्टा आसीत् परीप्सता ततः प्रध्मा जलजम् पाञ्चजन्यमहं नृपा आहूय शाल्वम् समरे युद्धाय समवस्थितः तन्मुहूर्तमभूद्युद्धम् तत्र मे दानवैः सह वशीभूताश्च मे सर्वे भूतले च निपातिताः कार्यम् महाबाहो येनाहम् नागमम् तदा श्रुत्वैवहास्ति न पुरम् द्यूतम् चाविनयोत्थितम् द्रुतमागतवान् युष्मान् द्रष्टुकामः सुदुःखितान् इति श्रीमहाभारते वनपर्वणि अर्जुनाभिगमनपर्वणि सौभवधोपाख्याने चतुर्दशोऽध्यायः